अथ द्विपञ्चाशम् दशकम् अन्यावतार निकरेष्व निरीक्षितम् ते भूमातिरेकमभिवीक्ष्य तदा घ मोक्षे ब्रह्मा परीक्षितुमनाः स परोक्ष भावम् निन्येऽथ वत्सक गणान् प्रवितत्य मायाम् वत्सानवीक्ष्य विवशे पशुपोत्करे तानानेतुकाम इव धातृमतानुवर्ती भुक्तां स्तिरोधित सरोज भवः कुमारन् वत्सायितस्तदनु गोपगणायितस्त्वम् शिक्यादिभाण्डमुरळी गवळादि रूपः प्राग्वद्विहृत्य विपिनेषु चिराय सायम् त्वम् त्वामेव शिक्य गवळादिमयम् गोरूपिणीभिरपि गोपवधूमयीभिरासादितोऽसि जननीभिरति जननी जीवम् च कञ्चिदभिमानवशात् स्वकीयम् मत्वा तनूजैति रागभरम् वहन्त्यः आत्मानमेव तु भवन्तमवाप्यसूनुम् प्रीतिम् ययुर्न कियतीम् वलितश्च गावः एवम् प्रतिक्षणविजृम्भितहर्ष भार निःशेष वामग्रजोपि बुबुधे किल वत्सरान्ते ब्रह्मात्मनोरपि महान् युवयोर्विशेषः वर्षावधौ नव पुरातन वत्सपालन् दृष्ट्वा विवेकमसृणे द्रुहिणे विमूढे प्रादीदृशः प्रतिनवन् मकुटाम् गदादि भूषांश्चतुर्भुजयुजः स प्रत्येकमेव कमला भोगीन्द्र भोग शयनन् नयनाभिरामन् लीलानि मीलित दृशः सनकादियो गिव्या कमल भूर्भवतो ददर्श नारायणाकृतिमसङ्ख्यतमाम् निरीक्ष्य सर्वत्र सेवकमपि स्वमवेक्ष्य मायानिमग्नहृदयो विमुमोह यावदेको बभूविथ तदा कबलार्थ पश्यन्मदे तदनु विश्वपतिम् मुहुस्त्वम् न त्वा च नूतवति धातरि धाम याते पोतैः समम् वातालयाधिप विभो परिपाहि रोगात् इति द्विपञ्चाशम् दशकम्